इदं तदशुभं नूनं तस्य कर्मचिकीर्षितं प्रागेव विदुरो वेद तेनास्मानन्वबोधयत् सेयमापदनुप्राप्ता क्षत्तायां दृष्टवान्पुरा पुरोचनस्याविदितानस्मां स्त्वं प्रतिमोचया सतथेति तथेति प्रतिश्रुत्य खनको यत्नमास्थितः परिखामुत्किरन् नाम चकार च महाबिलं चक्रे च वेश्मनस्तस्य मध्येनातिमहद्बिलं कपाटयुक्तमज्ञातं समं भूम्यश्च भारता पुरोचनभयादेव व्यदधात्संवृतं स तस्य तु गृहद्वारि वसत्यशुभधि सदा तत्र ते सर्वे वसन्ति स्म क्षपां नृपा दिवाचरन्ति मृगयां पाण्डवे यावनाद्वनम् विश्वस्तवदविश्वस्ता वञ्चयन्तः पुरोचनम् अतुष्टातुष्टवद्राजन् ऊषुः परमविस्मिताः न चैनानन्वबुध्यन्ता नरानगरवासिनः अन्यत्र विदुरामात्यात् तस्मात् खनकसत्तमात् इति श्रीमहाभारते आदिपर्वणि जतुगृहपर्वणि जतुगृहवासे षट्चत्वारिंशदधिकशतमोऽध्यायः